or Oh this 染 me them calc e ेषु पञ्च काश्यते काशी काशी सर्वप्रकाशिका सकाशीविदिता येन ते क्षेत्रं शरीरम् त्रिभुवनजननि व्यापिनि ज्ञानदम्बक्ते श्रद्धा हेयम् निजगुरुचरणध्या ेषोऽयं तु सकलजनमनः साक्षिभूतोमा देः सर्वमदीये यदिवसति पुनस्ते